गरुडपुराणम् आचारकाण्डम् अध्यायम् ट्वेण्टि फैव् सूत उवाच ऐं क्रीं श्रीं स्वें क्ष्वाौ अनन्तशक्तिपादुकाम्पूजयामि नमः ऐं श्रीं फ्रौं क्षौं आधारशक्तिपूत्पादुकाम्पूजयामि नमः ॐ ह्रं कालाग्निरुद्रपादुकां पूजयामि नमः ॐ ह्रीं हुं हाडकेश्वरदेवपादुकां पूजयामि नमः ॐ ह्रीं शेषभट्टारकपादुकां पूजयामि नमः ॐ ह्रीं श्रीं पृथिवीत्तत्सवर्णभुवनद्वीप समुद्रदिशा मनन्दाख्यमासनम् पद्मासनम् पूजयामि नमः ह्रीं श्रीम् निवृत्त्यादिकला पृथिव्यादितत्त्वमनन्दादिभुवनमोङ्गारादिवर्णनम् हकारादिनवात्मकपद सद्योदादिमन्त्राः ृदयाङ्गः हृदयाद्यङ्कः एवं मन्दमहेश्वरसिद्धविद्यात्मक परामृतार्णव सर्वभूतो दिक्समस्त षडङ्क सदाशिवार्ण वपयः पूर्णो दधिपक्षश्रीमाना पदात्मक विद्योमापूर्णज्ञत्वकर्तृत्वलक्षणज्येष्ठाचक्रुरुद्रचक्रियात्मककर्णिकप नवशक्तिशिवादिभिर्मूलमण्डलत्रयकूजात्मकोत्पन्नात्पद्मासन पादुगाम् पूजयामि नमः इति श्रीगरुडे महापुराणे आचार कांडे आसन आचारकाे आसनपूजा निरूपणनाम पंचवशोध्याय ओ